हरि ओं श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्डे पञ्चम स्वर्गः राज्ञोऽधेन सीता सीताय श्रीरामाय वसिष्ठकर्तृकम् उपवासवत् दीक्षादानं वसिष्ठेन राजानं प्रति वृत्तस्यास्य निवेदनं राज्ञ स्वान्तपुरे प्रवेश सन्दिश्य रामृपति शोभाविन्याभिषेचने पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन श्रियसे राजलाभाय वध्वासः यत व्रत तथेति च स राजानम् उक्त्वा वेदविदाम्बर स्वयं वसिष्ठो भगवान् जयो राम निवेशनम् उपवासयितुम् वीरम् मन्त्रविन्द्र गोविदम् ब्रह्मम् रथवरं युक्तम् आस्थाय सुधृतव्रतः स राम भवनं प्राप्य पाण्डुराभ्र घनप्रभम् तिस्र कक्ष्या रथेनैव निवेश मुनिसत्तमः सम्मागतं ऋषिं राम स्वरन्नेव ससम्भ्रमम् मानेषन् समानार्हम् निश्चक्राम निवेशनात् अभ्यच्य त्वरमाणोऽथ रथाभ्यासं निषिणय ततोऽवतारयामास परिगृह्य रथाश्रयं सचैनं प्रश्रितं दृष्ट्वा सम्भाष्याभि प्रियार्हम् हर्षयन् रामम् पुरोहितः प्रसन्नस्ते पिताराम राम यत् तं उपवासं भवानद्य करोतु सीतया प्रातः अभिषेक्ताहि यौवराज्ये नरधिपतादश रथप्रीत्या ययातिं नौ शो यथा इत्युक्त्वा स तदा उपवासं यतव्रतह मन्त्रवेत् कारयामास वैदेह्या शचितम् शुचिः सतो यथावद् रामेण स्वराज्ञो गुरुरर्चितः अभ्यनुज्ञाप्य काकुत्स्थम् ययो राम निवेशनात् सुहृद्भिः तत्र रामोऽपि सा वरे सभाजितो विवेशात् तान् सं सर्वशः वृक्षधारी नरयुतम् रामवेश्म तदा बभू व्यथामत्ते द्विजगणम् प्रफुल्ल नलिनं सर सरज भवनप्रख्यात तस्माद् राम निवेशनात् निर्गत्य मार्गम् वसिष्ठो जनसंवृतम् वृन्द वृन्दैः अयोध्यायाम् राजमार्ग समन्ततः बहु अभिसंवादः कुतूहल जननिर्वृतः जनवृन्दोर्मिकसङ्घर्ष स्व न वृतस्तथा बभूव राजमार्गस्य सागरस्यैव निःस्वनः सिक्ता सम्मृष्ट तथा वनमालिनी, वन मालिनी आसीदयोध्या तद सम्रित गृहध्वज तदा ह्योध्याश्रीब बालाकोजन रामषेकमाकांक्षा आकांक्षन उदय रवे प्रजाकार भूतवर्धन उत्सुको भोजनो द्रष्टु तम् अयोध्यां महोत्सवम् एवं तज्जनसम्बन्धम् राजमार्गम् पुरोहित व्युहन्निव जनौ गन्तम् शनैराज कुलम् यौ सिताभ्र शिखरप्रक्षम् प्रसादम् अधिरुह्य च समीयाय नरेन्द्रेण शक्रेणैव बृहस्पति तम् पिता राजा सन्नृप पप्रच्छ स्वमतं तस्मै कृतमित्यभिवेदयत् तेन चैव तदा तुल्यम् साहासीना सभासदः आसीनेभ्य समुत्तस्तु पूजयन्त पुरोहितम् गुरुणा तभ्यनुज्ञातो मनुजोघं विसृजतम् विवेशान्त पुरम् राजा सिंहो गिरि गुहाम्बि वे सदग्रवीष प्रमदा जनाकुलम् महेन्द्रारुर्वेश पार्थिवे शशिवतार गणशङ्कुलं न वे श्रीमद् रामायणे श्री सीतारामचन्द्रार्ब